श्रीहरये नमः अथ द्वाविंशोऽध्यायः मैत्रेय उवाच एवं माविष्कृताशेषगुणगर्मोधयो मुनिं स्वेटयिव तं सम्राट् उपारदमुवाचः मनुरुवाच ब्रह्मा सृजत् स्वमुगतो युष्मान् आत्मपरीप्सया छन्दोमयस्तपो विद्या योगयुक्तानलं पठान् तत्राणायासृजश्चास्मान्तोत् सहस्रात् सहस्रपात् हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते अतो ह्यन्योन्यम् आत्मानं ब्रह्मशक्त्रं च रक्षतः रक्षति स्मा व्ययो देव स यः सद सदात्मकः तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशया यत् स्वयं भगवान् प्रीत्या धर्ममाकरि रक्षिषोः दिष्ट्या भगवान् दृष्टो दुर्दर्शो यो कृतात्मनां दिष्ट्यापादर सीष्णा मे भवतः शिवम् दिष्ट्याद्व्यानुशिष्टोऽहं क्रतश्चानुग्रहो महान् अपावृतै कर्णरन्त्रैर्जुष्टा दिष्ट्योऽस दीर्गिरः स भवान् दुहितृस्नेहपरिक्लिष्टात्मनो मम श्रोतुमर्हसि दीनस्य श्रावितं कृपया प्रियव्रतोत्थानपधो स्वसेयं दुहिता मम अन्विश्चधिपतिं युक्तं वयः शीलगुणादिभिः यधातु भवतः शीलश्रुतरूपवयो गुणान् तत्प्रतीश्च द्विजाङ्ग्रये मां श्रद्धयो बहृतां मया सर्वात्मनानुरूपां ते गृहमेदिषु कर्मसु उद्यतस्य हि कामस्य प्रतिभातो न सस्यते कामरक्तस्य किं य उद्यतं ननाधृत्य क्षीयते तद्यशस्पेतं मानश्चावज्ञया हतः विद्वन् विवाहार्थं समुद्यतम् अत स्वम्बुपकुर्वाण प्रं प्रदिगृहाण भाटम्बुद्वोडुकामोहम् अप्रथा च तवात्मजा आपयो अनुरूपोऽसावद्यो वैवाहिको विधिः कामशभूयान्नरदेव पुत्रिया समाम्नाय विधौ प्रीतितः कयेवते एव तनयाम् नाद्रियते स्वयैव कान्त्या शिपतीमिव श्रियं यां हं यपृष्टे क्वणधङ्घ्रिशोपां विलोक्यसम्मोहविमूढचेताः तां प्रार्थयन्तीं ललनानालमसेवित श्रीशरणयदृष्ट वत्सा मनोरुश्चबतस्वसारं को नानुमन्यते भूतो बियाता अतो भजिष्ये समयेन साध्वीं यावत् तेजोऽभिप्रुयातात्मनो मे अथो धर्मान् पारमहंस्य मुख्यान् शुक्लप्रोक्तान् बहुमन्ये विहिंस्रान् यतो भवद्विश्वमितं विचित्रं संस्थास्यते यत्र च वावतिष्ठते प्रजापतीनां पतिरेश मह्यं परं मैत्रेय उवाच सभुग्रतन्वन्नियद्धेव भभाषे आशी च तूष्णीमरविन्दनाभं धियो भग्रग्नन्स्मितशोपिते न मुखे चेतो लुलुभे देवहूत्याः सोऽनुज्ञात्वा व्यवसितं महिष्यादुहितु तस्मै गुणगणाढ्याय तथौ तुल्यां प्रकर्षितः सतरूपमकाराज्ञि पारिबर्षान् महाधनान् दम्पत्योपर्यधात् प्रीत्या भूषा वासः परिश्चतान् तां दुहितरं सम्राट् सत्रुषाय गतत्वयतः द्वयथः उपगुह्यश भागोभ्याम् औत्कण्ठ्योन्मदिदासयः अनुग्नवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः आसिञ्च धम्पवत्सेते आमन्त्यतं मुनिवरम् अनुज्ञातः स कानुगः प्रतस्तेरदमारोह्य स भार्यस्वपुरं नृपः उभयो ऋषिकुल्याय सरस्वत्या सुरोदसोः ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्भतः मायान्तमभिप्रेत्य ब्रह्मा वर्तात् प्रजापथिं गीतसंस्तुतिवादित्रये प्रत्युधियो प्रकर्षिताः बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः कुशाकाशास्तयेवासन् सस्वत् हरिधवर्चसः कुषयो यै पराभाव्य यज्ञयज्ञमीजिरे कुशकाशमयं बर्हिरास्तीर्य भगवान् मनुः अयजत्यज्ञपुरुषं लब्धा स्थानं यथोभुवं बर्हिष्मदीं नाम विभुर्यां निर्विश्य समावसत् तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् सा भार्यः स प्रजः कामान् बुभुजेन्या प्रत्युषेष्वनुभक्तेन हृदा शृण्वन्हरे कथाः निष्णातां यो गमायासो मुनिं स्वायम्भुवं मनुं यथा ब्रह्मसयितुं भोगा न सेकुर्भगवत्परम् अयादयामास्तस्यान्यामास्वान्तरयापनाः शृण्वतो ध्यायतो विष्णो कुर्वतो ब्रुवथः कथाः स एवं स्वान्तरं निन्ये युगानामेकसप्ततिं वासुदेवप्रसङ्गेन परिभूतगतित्रयः शारीरा मानसा दिव्या वैयासे ये च मानुषाः भौतिकाश्च कथं क्लेशा हरिसंश्रयम् यः पृष्ठो मुनिभिप्राक्धर्मान्नाविधान्शुपान्नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा एतत्त आदिराजस्य मनोश्चरितम् अद्भुतं वर्णितं वर्णनीयस्य तदभत्योदयं शृणु इति श्रीमद्भगवते महापुराणे तृतीयस्कशोध्याय सर्व गोपी का जीवनस्मण गोविंद गोविंद सद्गुनाथ बगराज की जय